अथ पञ्चचत्वारिंशः सर्गः स तस्य गतिमन्विच्छन् राजपुत्रः प्रतापवान् दिदेशातिबलो रामो दश दायादौ नीलम् च प्रवगाधिपम् अङ्गदम् बालिपुत्रम् च शरभम् महाबलम् वृषभम् च ऋषभस्कन्धमादिदेशपरम् तपः ते सम्प्रहृष्टा हरयो भीमानुद्यम्यपादपान आकाशं विविशुः सर्वे मार्गमाणादिशो दशा तेषाम् वेगवताम् वेगमिषुभिर्वेगवत्तरैः अस्त्रभित् परमास्त्रस्तु वारयामासरावणिः तम् भीमवेगा अन्धकारेण ददृशुर्मेघैः सूर्यमिवावृतम् रामलक्ष्मणयोरेव सर्वदेहभिदः शरान् भृशमावेशयामास रावणिः समितिञ्जयः निरन्तरशरीरौ तु तामुभौ तावुभौ च प्रकाशे ते पुष्पिताविव किम् शुकौ ततः पर्यन्तरक्ताक्षो भिन्नाञ्जनचयोपमः रामनिर्भ्रातरौ वाक्यमान्तर्धानगतोऽब्रवीत् युध्यमानमनालक्ष्यम् शक्रोऽपि त्रिदशेश्वरः द्रष्टुमासादितम् वापि न शक्तः किम् पुनर्युवा प्रापितापिशुजालेन राघवौ एष रोष परीतात्मा नयामि यमसादनम् एवमुक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ निर्विभेदशितैर्बाणैः प्रजहर्ष ननाद धनुः भूय एव घोरान् विससर्ज महामृधे ततो रामलक्ष्मणयोर्वीरो नना दशमुहुर्मुहुः बद्धौ तु ततो विभिन्न सर्वाङ्गौ शरशल्याचितौ निपेततुर्महे श्वासौ जगत्याम् जगतीपती तौ वीरशयने वीरौ शयानौ शरवेष्टित शरवेष्टितसर्वाङ्गावार्तौ परमपीडितौ नह्यविद्धम् तयोर्गात्रे बभूवाङ्गुलमन्तरम् नानिर्विण्णम् न चाध्वस्तमाकराग्रादजिह्मगैः तौ तु निहतौ रक्षसा असृक्शुश्रुवतुस्तीव्रम् जलम् प्रस्रवणाविव पपात प्रथमम् रामो विद्धो क्रोधा क्रोधादिन्द्रजिता येन पुराशक्रो विनिर्जितः रुक्मपुङ्खैः प्रसन्नाग्रैरजो गतिभिराशुगैः नाराचैरर्धनाराचैर्भल्लैरञ्जलिकैरपि विव्याधवत्सदन्तैश्च सिंहदम्ष्ट्रैः क्षुरैस्तथा सवीरशयने शिष्ये विज्यमा विध्यकार्मुकम् भिन्नमुष्टिपरिणाहम् त्रिणतम् रुक्मभूषितम् बाणपातान्तरे रामम् पतितम् पुरुषर्षभम् सतत्र लक्ष्मणो दृष्ट्वा निराशो जीवितेऽवत् रामम् रामं शरण्यम् रणतोषिणम् शुशोच भ्रातरम् दृष्ट्वा पतितम् धरणीतले हरयश्चापि तम् दृष्ट्वा सन्तापम् परमम् गताः शोकार्ता शुक्रशुर्घोरमश्रुपूरितलोचनाः बद्धौ तु तौ वीरशयेश यानौ ते वानराः सम् परिभार्य तस्थुः समागता आदिकाव्ये युद्धकांडे पंचच्श सर्ग